्रह्मवादिना वदन्त्यभ्यदह वेगम् षिप्रोक्षे केनापयति ब्रह्मणे भ्य प्रोक्षत्तेभ्य एव्यः प्रोक्षति क्रूरमिव मानय दिशान्ति पुरस्ताप्रस्तरं गृह्णाति यन्तं गृह्णाति प्रजापतिनायज्ञः स्तृणाति प्रजाभिः पृथिवी वेदि वे वे प्रजागेव पृथिव्यां प्रतिष्ठापयत्य न ष्टं करोत्युत्तरं प्रस्तर गुङ् प्रजा मे यजमानः प्रस्तरो यजमानमेव यजमानादुत्तरं करोति तस्माद्यमानादुत्तरोन्तर्दधादिव्यावृत्यानग्भ्य हविष्कृतमेवेन गुङ्लोकं गमयति त्रे धानक्षित्रयगिमे लोकायेभ्य एव लोकेभ्य न प्रदर्शणा लियत्प्रदर्शीयादनो भावक्यजमानस्य स्यादुपरे वप्रहरत्युपरे वयतु वर्गो लोको नियच्छ वि वृष्टिमेवास्मै नियच्छति नात्यग्रं प्रहरेत् जनत्यग्रं प्रहरेदत्यासारिण्यः पर्योकास्यान्न पुरस्तात् प्रत्यस्येद्यत्पुरस्तात् प्रत्यस्येत्सु वर्गात् लोकाभ्यज यजमानं प्रतिमृते प्राञ्चम् प्रहरति यजमानमेव सुवर्गं लोकं गमयति न विष्पञ्चपञ्चर्ध्वद्योर्धमिवंसः पुमानेवास्य जायते यच्छेण वोपवेशेण वा यो युग्येतस्कृतिरेवास्य हस्तेन यो युप्यते यजमानस्य गोपीठाय ब्रह्मपातिना मदन्ति यज्ञ प्रस्तरयरितस्य पशुवर्गो लोकयित्याह वनीय इति ब्रूयाद्य प्रहरति यजमान मे पशुवर्गम् लोकङ्गमयति विवाहे तद्यजमानो लिषते यत्प्रस्तरं यो युक्ते प्रहरतिशान्त्यानारम्भणयिववागेतश्चर्गस्य ईश्वरो वेपनो भवितो ध्रुवासी धीमामभिमृशति वै ध्रुवास्यामेव प्रजतिष्ठति न वे मनोभवत्यगा नग्ने नित्याहयद्ब्रूजादगन् नग्नित्यज्ञाभग्निम् गमये निर्यजमानकम् सुवर्गाल्लोकाद्भजेतगम् नित्येव ब्रूयाद्यजमानमेव सुवर्गम् लोकम् गमयति ग्नेष्टयोज्यायागुम्सोऽभ्यातरासन्ते देवेभ्यो हव्यम् वहन्तः प्रामीयन्तसोऽपिभेदिच्छम् वावस्यायत सोऽपः प्रापिषप्तम् ्रुवन्नुपनावत्तस्व हव्ये यदेवस्कन्धात्तन्मे भ्रातॄणास्याहुदस्य बहिः परिधिस्कन्ध जिते यन्ताने वेन प्रीणादि पुरस्तात् परिदधात्यादित्योत्येवोद्य पुरस्ताद्रक्षागस्य वहन्त्यो द्वे समिधा वा दधात्युपरिष्टादेव रक्षागस्य वहन्त्येवन्यां मिशनत्वा यद्वे आदधादिजमानः प्रतिष्ठित्ये ब्रह्मवादिनोपदन्ति सत्त्वे यजे तयो यज्ञस्यादिति भोपदये स्वा स्वाहा भूतानां पदये स्वाहेति स्कन्दमनुमन्त्रगेत यज्ञस्यैपदलाचायमानोऽशी गान् भवति भूयसी देवता प्रेणादिजामि वा एतद्धस्य क्रियते पञ्च पुरोडाशावपागुंशियाजमन्धराधिरक्षामित्वा या सोऽमिष नत्वा याज्ञनमुष्मन् लोकादि ब्रुवन्ने देवाम् पर्योहा मे न्नाद्येन देवाग्निमुपामन्त्रयन्तराज्येन पितरो यमन्तस्मा जग्रदेवानामन्नादो यमस्तु कृणागं राजाज एवं वेरप्रराज्यमन्नाद्यमाप्नोदितस्मादेतभागधेयम् प्रायच्छनयदग्नये स्पृष्ट कृते पद्यन्ते यजग्नये स्पृष्ट कृते वध्यति भागधेयेनैव तद्दुर्भजम् समर्थयति सकृच्छकृतवद्यति सहृव रुद्रमुत्तरार्थादपद्यत्य रुद्रस्य जित्सायामेपदिषु रुद्रान्धिरवदयते द्विरभिघादयतिषु दुरपदस्यात्यै पशुभो वेपोर्वा आहुदयेषु रुद्रो विरर्ण्योर्वा आहुतेरभिजुहुयात् रुद्राय पशूनपिदध्याद पशुर्यमानस्यात् जिहाय पोर्वा मनः पृथिव्या यज्ञियमेच्छत्स घृतम् निषिक्तमविन्दत्स ब्रमेत्कोऽस्येश्वरो यज्ञेऽपि कर्तोदिता बब्रूताम् मित्रावरुणौ गोरेवामेश्वरौ कर्ता स्वय ऋतौ ततो गातुम् समेलय ता पुंसा यत्र यत्रण्यक्रामत्ततो घृतमप्य तस्माद्भृतमद्युच्यते ेत्याहेयं वै रथन्तरमि मामेव सहान्नाद्येनोपक्वैर उपभूतं वामदेव्यं दहान्तरिक्षेणेत्याः पशवो वै वामदेव्यं पशूनेव सहान्तरिक्षेणोपक्वयदमुपभूतं बृहत्सह दिवेत्याहैरं वै बृहदि रामे वसह दिवोपक्वयदुपभूताः सप्त होत्रादित्याहोत्रागेवोपक्वयदबुपभूता धेनुःसहरि त्याह मिथुनमेव पक्वैरवभूतो भक्षस्सखेत्याः सोमपेसमेव पक्वैर उपभूता त्याहात्मानमेवोपक्वयत आत्मा ह्युपहूतानाम् वसिष्ठयिडामुपक्वयदे वसर्वो वायिडा पसूनेवोपक्वयदे चतुर्पक्वयदे चतुष्पादो हि वसर्वो मानवीत्याहमनुर्ह्येतामग्रे पश्यद्भृतपदेत्याहयदेवास्यैपदाद्भृतमपि तस्मादेव माहमयित्रावरुणेत्याहमित्रावरुणौ केनागुम् समेतयताम् ेव <small> <t> <t> <t> <t> <t> इत्याह ब्रह्मैवोपह्यते दैर्याहध्वर्यव उपभूता उपहूता मनुष्या इत्याहदेव मनुष्यानेवोपह्यते ययम यज्ञमभानिय यज्ञपतिम्बद्धा नित्याह यज्ञाय चैव यजमानाय चासु समासास्तमुपभूते द्या वापृथिवी इत्याहद्या वापृथिवी एवोपह्यते पूर्वजे ऋतावरी इत्याहपूर्वजे केते ी देमि देवपुत्रे इत्याह देमी इत्येते देवपुत्रे उपभूतो यञ्जिलमान इत्याह गिलमानमेवोपक्वयमुत्तरस्याम् देव यज्ञायामुपभूतो भूयसह विष्करणमुपभूतो दिव्ये धावन्मुपभूत इत्याह प्रजावामुत्तरा देव यज्ञापशवो भूयोः विष्करणकं सुवर्गो लोको दिव्यन्धामेदमसेदमसेत्येव यज्ञस्य प्रियम् धावोपह्वयते विश्वमस्य प्रियमवहोदमित्याः चम्बट्कारमेवोपह्वयते पशवो वाय्या स्वयमाधत्ते काममेवात्मना पशूनामाधत्ते लक्ष्यन्नः कामम् पशूनाम् प्रयच्छति वाचस्पदग त्वा हुतम् प्राश्चामीत्याह वाचमेव भागधेयेन प्रीणादिपदघय त्वा हुतम् भवति हविर्वे च तरभक्तम् पशवश्चतुलभक्त च्छेदग्नो जुर्यात् भृद्रागपशोनपि दध्यात पशुर्लीडमानः स्यात् त्वाचस्पदग त्वाहुदम् प्राश्नामीत्याह परोक्षमेव जहोरिपदग त्वाहुदम् प्राश्नामीत्याहस्पदाग्रत्वे प्राश्नन्ति तीर्थगेवन्ति दक्षिणान्धलादि तीर्थगेव दक्षिणान्धदादिविभागे तज्जिन्द प्राष्ट्यन्त्यर्माजयन्ता वो वै सर्वा देवता देवताभिरेव यज्ञकम् सन्तं दन्ति देवा मन्तरायन् स यज्ञमविध्यत्तम् देवाभिगमगच्छन्त कल्पनान्न इदमिति ते ब्रुवन् सुष्टम् वै न इदम् भविष्यति तस्माद्यवमात्रमवद्येद्यज्ञायो वद्येद्रौपयेत्तद्यज्ञस्य यदुपजस्तृणे यादभिज घारयेदुभगतस्तस्वायगुव्यावताजाभिघारये सम्पद्यतेर्जिवाद्यमानः प्रतिष्ठित्ये यत्तिरष्टि न मति हरे तदभिविद्धै यज्ञस्याभिविद्धे जग्रेण परिहरति तीर्थेणैव देवा तस्मात् प्रविष्टभागोदन्तं वावमारिष्यति सगेकं मन्त्रमपश्यत् सौर्यस्य त्वा चक्षुरा प्रतिपश्यामीत्यब्रमेण् सौर्यस्थि चक्षुर्ति चन हिनस्थितो वाहिकं शिष्यतीति देवश्चत्वा सविदः प्रसवेश्विना बाहुभ्याम्भ्यां प्रति गृह्णामीत्यब्रवेत् सविदः प्रसूत एवैन बृह्मणा देवताभिप्रत्यगृह्णात् स्वबिभेत् प्राश्चन्तं वाहिकं सिष्यतेत्यज्ञे स्वास्तेन प्राश्चामेत्यब्रभीन्न ह्यज्ञेनास्य किञ्चन हिनस्ति स्वबिभे प्राशिदम् वाहिकम् तिष्ठ्यते जिब्राह्मणस्योदरेणेत्योदरम् किञ्चन हिनस्थिबस्पते ब्रह्मणे दिश हि ब्रह्मेष्ठोपवागे तस्मात् प्राणाः क्रामन्ति प्राणान् सम्मृशते अमृतम् वै प्राणामृतमापः प्राणानेव यथा ग्निधादधाच्यग्निमुखानेवत्तोऽन् समिधमादधात्युत्तराहुदीना प्रेक्षेत्यासौ समिद्वत्येवजुहोदिवर्धि सम्माष्टिपुनात्येवीनाम् सकृत्सकृत्सम्माष्टिपराङ्गवत्ये तर्हि यज्ञश्च सम्पद्यते चतुष्पादः पशवः पशोनेवावरुन्धे ब्रह्मण् प्रस्थास्यामयित्याः प्रवागे तर्हि यज्ञ श्रितो यत्र ब्रह्माय प्रेम यज्ञश्रुतस्तदेवै नृद्धस्तेन प्रमीवेत् प्राहेवासीता संवृत्तो यज्ञस्यात् प्रविष्टेत्येव ब्रूजा यज्ञ श्रुतो यत्प्रेम यज्ञश्रुतस्तदेवै नंसम् प्रयच्छति ते ववितरे तत्ते प्राहेत्याह प्रसो बृहस्पतिर्ब्रह्मेत्याहस हे ब्रह्मष्ठस्रयज्ञं पाहि स यज्ञवदयं पाहि समां पाहेत्याह यज्ञा हिरमानायात्मने तेभ्य देवाशास्तेनात्याः देवान यजेज ब्रह्मवादिना वदन्तेष्टा देवता अथकलमयेते देवाय निषन्धागं ब्रूजायत्रेन्द्रष्टुभञ्जकदेवित्यथो खलु ्राह्मणा वेशन्धांसेदिताने तद्यष्टा देवता आसन्नथाग्रन्नो ज्वलत्तं देवा आहुदेभिरनो याजेष्वन्दविन्दनयत्यज्ञमेव तत्समिन्धे नामासुराजे सगेतरि यज्ञस्यान्दयद्भ्रूजा चेतदुद्यावापृथिवी भद्रमभोजित्तेदुमेवासुनै यज्ञ स्याधिरङ्गमये द्विरं ज्या वा पृथिवी भद्रमभूरित्यैव ब्रूया द्विरमानमेव यज्ञस्याधिरङ्गमयत्याद्भुतोत्तवाचमुतनमो यद्ब्रूजात् सोऽपावसानाचस्पद्यवसान च प्रमायको यजमानस्य जलाहि प्रमीयते क्षेमापश्च सोपचरणाचस्पधिचरणा च तेवद्ब्रूजाद्वरीयसे देवास्मै गम्यो निवासः ते वत्प्रमायुको भवति तयोग्निदगम् हविरजुषजे त्याहया अयाक्ष्म देवतास्तारेर धामे दिवावे हयन्न निर्दिशेत् प्रतिवेशयज्ञस्याेदासाः यजमानो सा वित्याह यज्ञस्यैवैनकं सुवर्ग्रम् लोकं गमयत्यायुराशास्ते सुप्रधामाशा स्थगित्याः वैतामाशास्ते च जातमनस्यामाशा देवो देव ्यो वनते वयमनेदे भ्यो मनुते वयम मनुष्य मचेद नमो दे भयिद्या देवराग जगे मोभ्यो नमस्या देवावि यज्ञस्य स्वगा कर्तारण्णा विन्दन्ते संयुम् बालहस्पत्यमब्रुवन् निमन्नो यज्ञ स्वगा कुर्व्रभेद्वरम् वृणे यदेवाब्राह्मणोक्तो श्रद्दधानो यजातेजा मे यज्ञस्याशीरसदि तस्माद्य ब्राह्मणोक्तो श्रद्दधानो यजते किं मे प्रजायाते शतेन यातयाद्यो जातयाद्यो लोहितम् करभद्यावतः प्रस्कद्य संवत्सरान्लोकन्न प्रजानाधिमा ब्राह्मणा जनापगुरेतन लिखन् यान् लोहितम् कुर्यादे तावताहैन सा भवति त्याह यज्ञमेव तत् स्वगाकरोति तच्छञ्जो रावृणीमाहित्याः संयमेव समर्थयति कातु यज्ञाय गातु्यज्ञवदयित्याहासितमेतामाशास्ते सोमङ्गितिरेत एव तत्रष्टारङ्गिरेत एवहितं दष्टा रूपाणि करोति देवानां पत्येयमिर्ता याज्ञं ेजाविवागेतद्यज्ञस्य क्रियते यदाज्येन प्रयाजा युज्यन्त आजयेन पत्ने सञया मनोच्च पत्ने सञ्याजानामृताय धृत्वाया स्वामिशनत्वाय पङ्क्तिप्रायणो वै यज्ञः पङ्क्ति पञ्च प्रयाजा युज्यन्ते चत्वारः पत्ने सञ्याजाः प्रयन्ति पङ्क्तिमनोर्जन्ते युक्ष्वादिदेवभूतमागुम् अश्वागुम् अग्ने रथीरिव विहोता पूर्यस्वदः उत नो देवदेवागुम् रच्चागोचो विदुष्टरः स्वर्गश्वा वार्याकृधि त्वगुम् हयज्ञपेष्ठसहतस्सोनबाहुता हृदा वा यज्ञयो भुवः अयमग्निः सहस्रिणोवाजस्य सतिनस्पतिः मूर्धा कबीरगीनाम् तन्नेमिभवो विधानमः स्वसहोदिभिः नेदीयो यज्ञमङ्गिरः तस्मै नो नमभिद्य वे वाचाभिद्यया कृष्णे चोदस्पदस्पतिम् कमुष्मिदस्य सेवयाग्नेरपाकचक्षसः से अलिङ्गो शुःस्परामहे मानो देवानामिषः प्रश्नादीनिपोस्राः कृशर्णः सुलघ्न्याः मानः समस्य दोढ्यः परिद्वेषः नमस्ते अर्णवोजसे गृह्णन्ति देवष्टयः रमित्रे दे संवेशिषो रयम् पुरुगुरुस्कृतिः मानो अस्मिन् महाधने पराभृर्भारभृद्यथा सम्पर्गुंसकम् रयिञ्जया अन्नमस्मदमे धिषक्तुक्षुण नो अम ब्राजुषमस्म नष्ट दुर्मस्वा सग्वृधावती परस परागुम अभ्यात यहामस्तागुम विवाहि पुरा वयम्ग्नेतु आठाते सुन्न मीमे य उग्रैवशर्यः दिग्मजङ्गो नभुंसकः आज्ञे पुरोनुरोदिथ सखायः संवः संयम् च विषग्यस्तो मञ्चाग्नये वरिषिष्ठायक्षुकेनामोर्जो ने सहस्पदे सर्वम् समिद्युपदे पृषन्नग्ने विश्वान् निर्यापदे प्रजापते स वेद सोमाभूषणे मौ देवौ उशन्तस्त्वाहवावह उशन्तः सवि धीमहि उशन्नुषत आवह पितरेण हविषे आत्तवे तगुम्सभप्रचिगितो मनीषात्तगुम् वजिष्ठमनुनेिपन्थाः प्रणीते पितरो निन्दो देवेषुत्रमभजन्तीयाः त्वया हिनः पितरः स्वमपोर्वे कर्माय नवमानधीयाः वन्वन्नपाठः परिधे गौरपोर् वेदेभिरश्वर्मघवा भवानः स्वपंसाम पितृभिः संविधानो रद्या वा अग्रष्पात्राः पितरयेहगच्छत शरः सदः सरदु प्रणीतयः अत्राहमेकम् हिप्रेतानि बलिहष्यथा नेकम् सर्ववीरम् दधातन बलहिषतः हम् पितरेञ्छिरत्रागम् अविच्छिनपातम् च विक्रमणम् च विष्णाः परिहृषतो ये स्वजया सुतस्य भजन्त वित्वस्तैः आगमिष्ठाः भोभूताः पितरः सोम्यास परिहृष्येषु निजप्रियेषु प्रागमन्ततैः शुभम् ते ब्रुवन्तु ते अवन्तस्मान् उदीररामवरमुत्परासमुन्मध्यमाः पितरः सोम्यासः असुगीयुगताज्ञास्त्रेणो बन्तु पितरोहवेषु इदम् पितृभ्यो नमोऽहस्मद्युगे पूर्वासो य उपदासयीयोः ये पार्थिवेरजस्यानिषत्तायैवा नोनगुंसु वृजनासु विक्षु तथा यथा नः पितरः पदासः पत्नासो अग्रतमासुषाणाः सुचेतयन्तेमुक्थशा सः क्षामा भिन्दन्तो अरुणेरभ्रन् निरग्ने गव्यवाहनपितरे निक्षिरतावृथः निवक्ष्यसि देवेभ्यश्च पितृभ्यः त्वमग्नितो जातवेदो वाक्षव्यानि तु रफेणि कृत्वा राधाः पितृभ्यः स्वस जाते अक्षन्नद्धि त्वम् देवप्रयता हवेगुषे मातले कव्यैर्यमो अङ्गिरोभिहस्पतिर्वावृधानः यागश्च देवा वामधुर्गे च देवान् स्वाहान्ये स्वधान्ये वदन्ति इमयमप्रस्तरमाहिलीतृभ्यः संविधानः आत्त्वा मन्त्राक्रविशस्तावहन्त्रेणाराजनः विषामादयस्व अङ्गियोभिरागहि यज्ञेयैभिर्यमभैरूपैरिहमादयस्व हिशिष्या निषद्य अङ्गेरसो नः पिथरो न भगवा अथर्वानो भृगवः सोम्यासः तेषाम् भजगुंसुमथो यज्ञिया नामसे स्यामा द्वितीयकाण्डः समाप्तः जालकामयत प्रजासृजये ति स तपोदप्यदस सर्पानसृजदशो कामयत प्रजासृज ये दिशद्वितीयमदप्यदस प्रजागस्य सृजतशो कामयत प्रजासृज ये दिश तृतीयमदप्यदसघैतं देक्षितवादमपश्यत्तमवधत्ततो वेन प्रजासृजयत्तमस्तत्वादेक्षितवादं वदति प्रजा एव दद्यमानसृजते यद्वैदे क्षितो मेभ्यं पश्यत्यपास्माद्देक्षाक्रामीलमस्य हव्येत्यपभ्यं मनो दरिद्र्यं चक्षुःसौर्यो ज्योतिषा श्रेष्ठो देक्षय मासे नित्याहना स्मा देक्षाभक्रामदिनाश्च हव्ये नियद्वै देक्षितमभिवर्षति दिव्यापोषा शान्तावोजो बलं देक्षान्तपोऽस्म निर्भ्यन्तम् गतेर्बलम् धत्तौ जो धत्त बलं धत्तमा वेदेक्षां मादपो निर्वधिष्ठेत्याहैतदेव सर्वमात्मधत्ते नास्यौ जो बलं न देक्षान्नतपो निर्भ्यन्त गर्वेदे देवदासोस्मादेतरिः तिरहित रक्षागम् सिहन्तो भद्रादभिष्टे यः गृहस्पतिः पुरगेताते अस्मित्या ह ब्रह्म मे देवानाम् बृहस्पतिस्त्वमेवान् पारभते सगेन सम्पारयत्ते तम कण्मदे भगजनम् पृथिव्या इत्याहदे भगजन गृह् पृथिव्या आगच्छति यो देवा यजति सन्तपूर्वगित्याह विश्वेक्ये तद्देवा जोषयन्ते यद्राह्णा रक्षामाभ्याम् यदुषा सन्तरम् तगित्याहृक्षामाभ्यागहक्ये जयतुषा सन्तरति यो यजते राजस्पोषेण समिजाम देमेत्याहासितमेवेतामाशास्ते एषते गायत्रो भाग ेष्टभोजागतो भागयति मे सोमाय ब्रोताच्छन्दोमानापुंसाम्राज्यं गच्छेति मे सोमाय ब्रोधाद्यो वे सोमपुंराजानपुंसाम्राज्यं लोकं गमयित्वा क्रीणादिगच्छति स्वानागुं साम्राज्यं छन्दागुंसि खलु वे सोमस्य राज्ञ साम्राज्यो लोकः पुरस्तात् ेवमभिमन्त्रगेण साम्भ्राज्यमेवम् लोकं गमयित्वा केनाभिगच्छति स्म नाकं लिङ्गो वेतानो नस्य प्रतिष्ठाम्येन नप्रच्च प्रतिष्ठति ब्रह्मवादिना वदन्ति न प्राश्यन्ति न जगपच्चवदानो नम् प्रतिष्ठते प्रजापतौ मनसे जिग् ब्रूहा प्रजापतौ ेदानो न प्रस्य प्रतिष्ठाय एवं वेन प्रत्ययवतिष्ठधियो वाग्भ्योः प्रतिष्ठां वेन प्रत्यवतिष्ठधियतो मन्ये तानभिक्रम्य हो श्यामेतिष्ठन्नाश्रामे वाग्भ्योः प्रतिष्ठाय एवं वेन प्रत्यवतिष्ठधेरभिक्रम्य जिहुजा प्रतिष्ठाया इया तस्मात्मानप्रतिष्ठदाहो भव्यं भवति सृग्वा अस्य स्वं वागव्यमस्य वागव्यं वा नावये स्वादिगा तस्मादन्वारभ्या श्राव्यस्वादेव नैतयो वेद मम प्रतिष्ठाप्यस्तोत्रमभागवाप्यप्रतिष्ठितस्व मो भवत्यप्रतिष्ठित ुक्न्यप्रतिष्ठितो यणमानोऽ प्रतिष्ठितो धर्युर्वायव्यम्बे सोमस्य प्रतिष्ठा चमसोऽस्य प्रतिष्ठा सोम स्तोमस्य स्तोममुक्थानाम् गृहम् वाजिरे चमसम् वो यज्ञम् वा एतत्सम् फलम् जिगत्सामक्रयण्ये पदं यज्ञमुखगृंह वृद्धाने यरिह वृद्धाने प्राजेरे प्रवर्तये यस्तर्हि तेनाक्षमुद्रिज्ञमन्तनाधिप्राञ्चमग्निहरन्त्युत्पत्ते मारयन्त्यं वनागम् प्रवर्तयन्त्य सवाजोऽधीयते सोऽध्याय विधये प्रजाम् पशो यस्य समयिकौर्यरिः पशुमा प्रीतमुदं च नयन्ति तरि हृदस्य पशुश्रवणकुं हरे त्रेण वेणम् भागिनम् करोति यजमानो वा आहवलीयो यजमानम् भार्यद्विकर्षन्तराहवलीया पशुश्रवणकुम् हरन्ति समेव स्यान् नर्मम् वागुर्याद्यजमानस्य प्रत्याख्यायमपद्येक्षैव ततस्त्रायश्च प्रयपसुम्यवध्रेरणयस्तान् कामयेतार्तिमार्चयिभिरङ्गे नमो भृत्यवत्यर्चाज्ञेयुजा नमो वृत्तिमे वृषाम् वृन्ते ताजगार्तिमार्च्छन्ति प्रजापतेर्जायमानाः प्रजाजाताश्च तस्मै प्रतिप्रवेदयतिभागुम् अनुमन्यता इवम् पशुम् पशुपते अद्य पध्याम् यज्ञेषु कृतस्य मध्ये अनुमन्यस्व सुयजायुजामयुष्वम् देवाना विदमस्तु हव्यम् प्रजानन्तः प्रतिगृह्णन्ति पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् स्वर्गै्याभियाने रोषधेषु प्रजतिष्ठा धरीरैः येषामीरे पशुपनिः पशूनाम् चतुष्पदामुदयघिपदाः निष्क्रीतोऽणञ यज्ञयम् भागमे तुलायस्पोषायजमानस्य सन्तो ये बध्यमानमनुबध्यमाना अभ्येक्षन्तमनसा चक्षुषा च अग्रष्टागुम् अग्रे प्रमोक्तु देवः प्रजापतिः प्रजया संविधानः यण्याः पशवो विश्वरूपा विरूपाः सन्तोगेकरोपाः वायुस्तागुम् अग्रे प्रमोक्तु देवः प्रजापतिः प्रजया संविधानः <सुम्धाना>। नुञ्चमानाभुवनस्तरेतो गातुम्भत्रयजमानाय देवाः उपाकृतपंसमानय्यदस्थाः जीवन् देवानामप्येदुपाथः नानाः प्राणो विरमानस्य वशुना निज्ञो देवेभिः सह देवयानः जीवन् देवानामप्येदुपाठः सत्याः सन्त विरमानस्य कामाः यः प्रशुर्मायुमकुतोरोद्भिराहते सर्वैर्मादस्पादेन सोऽश्वान्मुञ्चत्वगुम्भसः शमिदानमुपेतन यज्ञम् देवेऽभिरिन्वितम् पाशाः पशुम् प्रपुम् च बन्धाद्विव्यपतिम् परि अदिग्यःपाशम् प्रभुमा त्वेतन्नमः पशुभ्यः पशुपदरे करोमि आरातीयम् तमसरम् कृणो मयम् विष्पस्तस्मिन् प्रतिमुञ्चाभिपाशम् ्यवाहगुंशतम् कर्तारमुतनिर्नियम् च अग्ने सदक्षः सदनुभूत्वायागच्छ देवान्त्वम् प्रथमो बभूत घृतेन त्वम् तनवो वर्धयस्व स्वाहा घृतगुम् हविरदन्तु देवाः स्वाहा देवेभ्यो देवेभ्य स्वाहा प्राजापत्या वे पशवस्तेजागौ रुद्रोऽधिपवर्यतेभ्यामुपाकरों प्रतिप्रोच्यालभत आत्मनो नास्का यद्वाभ्यामुपाकरो यद्दिवा व्रजमान प्रणच्छत्या उपानृत्यपञ्चजहो दिवानु पशवः पशौ नेवावरुन्धे नृत्यवेशनीयते यत्पशुस्त्यन् वारभेदप्रमायुको यजमा प्राणो यजमानस्य पशुनेत्याहव्यावृत्तेर्यत्पशुर्माय गजेजुहोपेतनेत्याह यथायामग्नेर्मेपक्राम जित्वाहविमभिजुहत्यग्नेरेव मेधमवरुन्धे सुभक्त्वाय पुरस्ता अन्यदेव उपरिष्टात् स्वाहा गतयोन्ये स्वाहा देवेभ्यो नैव देवे भस्माहेपितानेवो भयां प्रेणाति ो वायथा देवतं यज्ञमुपजरत्या देवताभ्यो विष्टते पापीयान् भवति यो यथा देवतं दे न देवताभ्याविष्टतेऽपधीयान् भवत्याग्ने यस्याग्नेद्रमभिषे द्वैष्टव्याहविद्धानवासृचो वायव्यया वायव्यान्नेन्द्रिया सदो यथा देवतमेव यज्ञमुपजरति न देवता ृथिवीम् ज्योतिषा सह यिल्विभाहुमन्तरिक्षेण ते सह युलद्विवाहुंसह सौर्येण ते यिलज्वि तिस्रो विवृतः सौर्यस्यते र्यर्देवता गायत्री छन्दो पागंसः पात्रमधितोमो देवता द्रष्टुच्छन्दो धरि गामस्य पात्रमजेन्द्र न्द्रमा देवता सतो गृहगे छन्दो मन्सिनः पात्रमधि विश्वे देवा देवतोष्णिः छन्द आगृहिणस्य पात्रमझेन्द्रो देवता चतुच्छन्द मुक्ताः पात्रमधि देवता विराच्छन्दो ध्रुवस्य पात्रमधि इष्टर्गो वा अध्वर्यजमानस्य सर्गः खलु वेकोष्टुः क्षीयत आसञ्ज्ञामन्तात्पाहितस्याश्चिदभिषश्च इति पुरातरणभार्यः पुरस्तात् कर्म न क्यतेषु वेशायत्वोपवेशायत्वागाय ध्यात्तु भोज्या पानौ भृत्योर्मा पातुं प्राणापानौ माहादिष्टं देवता सुपाने प्राणापानयोर्जायच्छन् ते ये मस्तपृच्छदेधं वेषायत्वोपवेशायत्वेत्याः छन्दाकं सवेधं वेष उपवेशच्छन्दोभिदेवास्य छन्दाकं सवन्ते प्रतिवन्त्याज्यानि भवन्त्यभिजिते मरुत्पदे प्रतिपदो विजित्या हे बृहत् सन्तरे भवत इयं वारसन्तरपसो बृहदा देवेण मन्तरे तनग्रो बृहद्याश्वा देवेन वरसन्तरम् भविष्यद्बृहद्भूता चैवष्यदश्चान्तरसन्त हव्यंशस्य तेन्द्रियमेव लङ्के यश्च होयातुम् स्वयज्ञा हुस्व देवतालङ्करि यज्ञोमस्तोपरस्ताम् गुर्वेदयज्ञक्रतुभिश्च देवता भवति निद्राभ्यास्तदभस्वदायं मे तर्पयत प्राणं मे तर्पयता पानं मे तर्पयत ज्ञानं मे तर्पयद लक्षं मे दर्पयतश्रोत्रं मे तर्पय धे तर्पयद वाजं मे तर्पयदात्मानं मे तर्पयताङ्गानि तर्पयत तर्पयत माघणामेवावितृषण्णोषधावै होमस्य खलु वैराज्ञः प्रजातोरे सेन्द्रस्वामो वैरुधम् भव मनसा सुजाता ऋतप्रजाता भगविद्वश्यामः न्द्रेण देवेन विरुधस्संविधानानुमन्यसवनायस्वारे विषस्वारे देवतायैवेमस्याभिषो यथमोऽंसस्कन्देश्वर इन्द्रियं वेर्यम् प्रजाम् प्रजोदयमानसन्तोत्तमन्तः प्रजया निर्वधेरित्याजित मे मे तावायस्य वैर्यस्य प्रजाये पशो नाम निर्घाचार्य द्रक्षश्च स्क्रन्द पथवेप्यामिमन्त्रयोमस्क्रोर्वः यो निम सञ्जरन्दम् द्रक्षङ्गम्यनुसप्तहोत्राः न्देवय शसेनार्पयति मनुष्या मनुष्यै शसेन देवयशस्येव देवेषु भवति मनुष्यै शसे मनुष्येषान् प्राचीनमार्गेण ग्रहान् ग्रन्थेया तानुवाकुंसन् देवा देवानेव तद्देवयशसेनात्मयज मनुष्याणाम् मनुष्ये शसेन देवयशस्येव देवेषु भवति मनुष्ययशसेव मनुष्ये प्रज्ञप्रादस्तवनेपहा तस्मान् वैष्वानवजम्भोः पाद्रविनन्दहात्पायुष्पन्तः स्तः भक्षा स्याम न्द्रो अस्मानस्मिन् वितीरे आयुष्पन्तः वदन्तोम् सुमतो स्यामा समनङ्गवे ने च मसमे अभिवसी यो नयन्तौ आयतनवतेर्वा अन्या आहुतया भूयन्ते नायतना अन्याया घारवतेस्ता आयत नवतेर्या सौम्यास्ता नायतना ऐः वा यमपादाया घारमाघारवेद्भरो यज्ञो यमस्तु देवोढेभ्यः पशवे न जनाय भूताया त्यगम् सुमेत्यं संवत्सरे नाय स्वस्त्यम् पुत्रेभ्यो रागम् व्यभजत्सदाभाले षष्ठम् ब्रह्म यम् वसन्तम् निरभयत्सागच्छत्स्वाभ्रवे प्रशावानिरभागदिनत्वानिरभाग्रवित्यभ्रमेदङ्गिरस इमे सत्रमासदेतेषु वर्गम् लोकम् न प्रजानन्ति तेऽभ्ययनम् ब्राह्मणम् रोहितेषु वर्गम् लोकय्यम् तोयेष पशमस्तास्यन्तेभ्य ब्रवीत् अर्गम् लोचयन्तो ये पशवः सन्तानस्मादम् पशुभिश्च यज्ञभास्तु रुद्रागच्छामे पशव इत्युर्वेद्यमिमानित्यब्रवेदस्य च केशर इत्याब्रवेस्तु हि यदे मम वेदयुगस्माद्यवास्तु नाब्रवेत् भिमन्यस्तेजितस्मादेवम् मन्सिनः सर्गः श्रावमनुभोक्ततो वैतश्च रुद्रः पशो नाभ्यमन्यतयक्लेदमेवम् विद्वा मन्सिनः सर्गस्रावम् जहो घिण तत्र रुद्रः पशोनभिमन्यते